छान्दोग्योपनिषत् अध्यायं फैव् खण्डं वन् ॐ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च हवैश्रेष्ठश्च भवति यो ह वै वसिष्ठं वेदवसिष्ठो हस्वानां भवति वाग्भाववाववसिष्ठः हा। यो ह वै प्रतिष्ठां वेदप्रदिह तिष्ठत्यस्मिघ्रिश्च लोके मुष्मिघ्रिश्च चक्षुर्वावप्रतिष्ठा यो ह वै सम्पदं वेद सगुंहास्मै कामाः पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वावसंपत यो वा आयतनं वेदायतनगंहस्वानां भवति मनोः वा आयतनम् अधः हगुश्रेयानस्म्यहगुश्रेयानस्मीति ते ह प्राणाः प्रजापदिं पितरमेत्योचोर्भगवन्को न श्रेष्ठ इति तान् होवाच यस्मिन्व वा उत्क्रान्ते शरीरं पापिष्टतरमिव दृश्येद सवश्रेष्ठ त इति साखवागुच्चक्रामसा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकदर्ते मज्जीवितुमिधि यथा फला अवदन्धः प्राणन्दः प्राणेन पश्यन्तश्चक्षुषा मनसैवमिदि शृण्वन्दश्रोत्रेण ध्यायन्दो मनसैवमिति प्रविवेशहवाक् चक्षुर्होच्चक्रामतत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकदर्थे काधा मज्जीविदुमिति यथान्ता अपश्यन्तः प्राणन्दः प्राणेन वदन्तो वाजा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेशः चक्षुः श्रोत्रघं वोच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकदर्थे मज्जीवितुमिति यथा बधिरा अशृण्वन्तः प्राणन्दः प्राणेन वदन्दो वाजा पश्यन्तश्चक्षुषाध्यायन्दो मनसैवमिति प्रविवेशः श्रोत्रम् मनोः चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकदर्ते मज्जीवितुमिधि यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तोवाच पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैव स्मितिप्रविवेशह मनः अधः प्राण उच्चिक्रमिषन् स यथा सुखयषड्वीश शङ्गोन्सङ्खिदे देवमिदरान्प्राणान् समखिदत्तगुम्हाभिषमेत्योचोर्भगवन्नेधि त्वन्नः श्रेष्ठोऽसि मोत्क्रमिरिदि अध हैनं वाग्वाजयदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाजयदहं प्रधिष्ठोऽस्मि त्वं तत्प्रधिष्ठासीदि अध हैनगश्रोत्रमुवाजयदह है गम् सम्पदस्मि त्वं तत्सम्पदसीत्यधैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति न वैवाचो न चक्षुगुंषि इत्येवाचक्षदे प्राणोह्ये वै तानि सर्वाणि भवति अध्यायं फैव् खण्डं टु सहोवाच किं मेनं भविष्यतीति यत्किञ्चिदिदमाश्वभ्य आशकुनिभ्य इति होजुस्तद्वा ये ददनस्यान्नमनोह नामप्रत्यक्षन्नः वा एवंविधि किञ्चनानन्नं भवतीति स होवाच किमेवासो भविष्यदित्याप इति होजुस्तस्माद्वा ये ददशिष्यन्धःपुरस्ताच्चोपरिष्ठाच्छाद्भिः परिदधति लम्भुगोः वासो भवत्य सो भव्यनोति तैतम जाबालो गोश्रुतये गोश्रुत योक्त्वो वाज यद्यप्यन शुष्काय ब्रूयाज्यारने वास्ाखा प्ररो पलाशानिधि अध यदि महज्जिगमिषे दमावास्यायां दीक्षित्वा पौर्णमास्यां रात्रौ सर्वौषधस्य मन्थन् दधि मधुनोरुपमध्यज्येष्ठायश्रेष्ठाय स्वाहेत्यग्ना वाज्यस्य हुत्वा मन्द्रे सम्पादमवनयेद् वसिष्ठाय स्वाहेत्यज्ञा हुत्वा मन्धे सम्पादमवनयेत्प्रतिष्ठायै स्वाहेत्यज्ञा वाज्यस्य हुत्वा मन्धे सम्पादमवनयेत् सम्पदे स्वाहेत्यग्ना वाज्यस्य हुत्वा मन्थे सम्पादमवनयेदायतनायस्वाहेत्यज्ञा वाज्यस्य हुत्वा मन्थे सम्पादमवनयेत् अध प्रदिसृप्याञ्जलौ मन्दमाधाय जपत्यमो नामास्यमाहिदे सर्वमिदगुं सहिज्येष्ठश्रेष्ठो राजाधिपतिस्समाज्यैष्टज्ञश्रैष्ठग्यगं राज्यमाधिपत्यङ्गमयत्वह गमयत्वहमे वेदगं सर्वमसानिति अध खल्वेदयर्चापच्छ आचा मदितत्सविदुर्वृणीमः इत्याचामदि वयं देवस्य भोजनमित्याचा मदिश्रेष्ठगुं सर्वधातममित्याजा मदितुरं मदि भगस्य धीमहिदि सर्वं पिबदि निर्निज्यकगं संचमसं वा पश्चादग्ने संविशदि चर्मणि वा स्तण्डिले वाच यमोप्रसाहस यधि स्त्रियं कर्मे दि विद्याद तदेष श्लोकः यदा कर्मसु काम्येषु स्त्रियगुस् स्वप्नेषु पश्यति समृद्धिं तत्र जानिया जानीयात्तस्मिन् स्वप्ननिदर्शने तस्मिन् स्वप्ननिदर्शने अध्यायं 5 खण्डं 3 स्वेदके दुर्हारुणेयः पञ्चालानागं समिधि मेयायत गं हप्रवाहणो जैवलिरुवाचकुमारानुत्वाशिषत् पिधेत्यनुहि भगव इति वेद्ध यदितोधिप्रजाप्रयन्तीति न भगव इति वेद्ध यथा पुनरावर्धन्ता यदि न भगव इति वेद्ध पथोर्देवयानस्य पितृयाणस्यजव्यावर्तना इति न भगव इति वेद्ध यथासौ लोको न सम्पूर्यत इति न भगव इति वेद्ध यथा पञ्चम्या मादा वापः पुरुषवचसो भवन्तीति नैव भगव इति अधानो किमनुशिष्ठो वोचायो हि मानिन विद्यात्कथगुं सोऽनुषिष्ठो ब्रुवीदेधि स हायस्थः पितुरर्थमे यायतगुं होवाचा ननुशिष्यवकिल मा पञ्चमाराजन्यबन्धुः प्रश्ना न प्राक्षित्तेषान्नै कञ्चना शकं विवक्तुमिति स होवाच यथा मा त्वं तदैता न वदो यथाहमेषान्न कञ्चन वेदयद्यहमिमानवेदिष्यं कथन्ते नावक्ष्यमिति सह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्ता यार्हाञ्चकार सह प्रादः उदेयायत गुंहोवाच मानुषस्य भगवन् गौतमवित्तस्य वरं वृणीधा इति सहोवाच तवैवराजन्मानुषं वित्तय्या मेव कुमारस्यान्ते वाचमभाश्रधास्ता मेव मे ब्रूहीति सहकृच्छ्री स्थगुं सचिरं वसेत्याज्ञापयाञ्चकारतगुं कोवाच यथा मा त्वं गौधमा वधो यथेयन्न प्राक् त्वत्तः तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै उवाच अध्यायं फैव् खण्डं फोर् असौ वावलोको गौधमाग्निस्तस्यादित्य एव समिध्रस्मयो धूमोहरार्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धाञ्जुह्वति तस्य आहृदे सोमो राजा सम्भवति अध्यायं फैव् खण्डं फैव् पर्जन्यो वावगौतमाग्निस्तस्य वायुरेव समिदभ्रम धूमो विद्युदर्चिरशनिरङ्गाराह्रादुनयो विस्फुलिंगाः तस्मिन्ने तस्मिन्नग्नौ देवासोमघं राजानञ्जुह्वदि तस्या आहुतेर्वर्षगं सम्भवति अध्यायं फैव् खण्डं सिक्स् पृथिवीवावगौतमाग्निस्तस्यात् संवत्सर एव समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गार अवान्तरदिशो विस्फुलिङ्गाः तस्मिन्ने तस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहृतेरन्नगुं सम्भवति अध्यायं फैव् खण्डं सवन् पुरुषो वावगौतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वार्चिश्चक्षुरङ्गाराश्रोत्रं विस्फुलिङ्गाः तस्मिन्नेतस्मिन्नग्नौ देवा अन्नन् जिह्वदि आहुदे रेतः सम्भवति अध्यायं फैव् खण्डम् एय्ट् योषावावगौदमाग्निस्तस्या उपस्तयेव समिद्यदुपमन्त्रयते स धूमो यो निरर्चिर्यदन्धः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः तस्मिन्नेतस्मिन्नग्नौ देवा रेदो जिह्वति तस्या आहुतेर्गर्भ सम्भवति अध्यायं फैव् खण्डं नैन् इति तु पञ्चम्यामाहुता वापः पुरुषवचसो भवन्ती दिश उल्बावृदो गर्भो दश नन्दशयित्वा यावद्वाधजायते सजातो यावदायुषञ्जीवदितं प्रेदन्दिष्टमिदोऽग्नय एव हरन्ति यदये वेदो यदसम्भूदो भवति अध्यायं फैव् खण्डं टेन् तद्य विदुर्ये चेमे चेमेरण्ये श्रद्धा तप इत्युपासदेतर्चिषमभि सम्भवन्त्यर्चिषोहराह्न आपूर्यमाण पक्षमापूर्यमाण पक्षाद्यान् षडुदङ्गेधि मासागुस्थान् मासेभ्यः संवत्सरगुम् संवत्सरादादित्यमादित्या चन्द्रमसञ्चन्द्रमसो विद्युतं तत्पुरुषो मानवस् येनान् ब्रह्म गमयत्येष इति अथ इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धोममभि सम्भवन्ति धूमाद्रातृगुं रात्रेरपरपक्षमपरपक्षाद्यान् षड् दक्षिणैदि मासागस्थान्नैदे संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमस मेष सोमो राजा तद्देवानामन्नन्तं देवा भक्षयन्ति तस्मिन् यावत् सम्पादमुषित्वाद्धैतमेवाध्वानं पुनर्निवर्तन्ते यथेदमाकाशमाकाशाद्धयुं वायुर्भूत्वा धूमो भवति धूमो भूत्वा भ्रं अभ्रं मेखो मेघो भवति भूत्वा प्रवर्षदित इह व्रीह्यवा वोषधि वनस्पतयस्थिलमाशा इति जायन्तेदो वै खलु दुर्निष्प्रपतरय्यो यो ह्यन्नमस्ति यो तद्भूय एव भवति द्य इह रमणीयचरणा अभ्यासोह यत्ते रमणीया योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाधय इह कपूयचरणा अभ्यासो ह यत्ते कपूयां योनिमापद्येरन्स्व योनिं वा सुकरयोनिं वा चाण्डालयोनिं वा अधैस्तयोः पधोर्नकतरेण च न तानि वर्दीनि भूदानि भवन्ति जायस्वं म्रियस्वेत्येतृदीयगुंस्थानन्तेनासौ लोको न तस्माज्जुगुप्से ददेष श्लोकः स्तेनो हिरण्यस्य सुरां पिबद्घुश्च गुरोस्तल्पमावसन्ब्रह्महा अध ह य एतानेवं पञ्चाग्नीन् वेदनसहतैरप्याचरन् आत्मना लिप्यदे शुद्धः बोधः पुण्यलोको भवदीय एवं वेदय एवं वेद अध्यायं फैव् खण्डम् इलेवन् प्राचीनशाल औपमन्यव सत्ययज्ञः पौलुशिरीन्द्रद्युम्नो भाल्लवेयो जनशार्कराख्यो बुडिल आश्वतराश्विस्थे हैते महाशाला महाश्रोत्रिया समेत्य मे मागुंसाञ्चक्रुको न आत्मा किं ब्रह्मेति शेखसम्पादयाञ्चक्रुरुद्दालको वै भगवन्तोऽयमारुणिः सम्प्रति ममात्मानं वैश्वानरमध्येदि तगुं हन्दाभ्या गच्छा मेदितगुं हाभ्या जिग्मुः सह सम्पादयाञ्चकारप्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्दाहमन्यमभ्यनुशासानीति तान् हो वाचाश्वपदेर्वै भगवन्तोऽयं कैकेयः सम्प्रति ममात्मानं वैश्वानरमध्येदितगुं हन्दाभ्यागच्छ मेदितगुम् भ्या जग्मुः तेभ्यो ह प्राप्तेभ्यः स्पृतगर्हाणि कारयाञ्चकार सहप्रादसञ्जिहान उवाच नमेस्तेनो जनपदेन कदर्यो न मद्यपोनानाहिदाग्निर्ना विद्वान्नस्वैरिस्वैरिणि कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि भगवद्भ्यो दास्यामि वसन्तु भगवन्त इति ते होचुर्येण हैवार्थे न पुरुषश्चरेत्तगंहैव वदे दात्मानम् मे वेमं वैश्वानरघुं सम्प्रत्यध्येषितमे वनो ब्रूहीति तान् होवाच प्रादर्वः प्रतिवक््रास्मीदिदेह नुपनीय वै ददुवाच अध्यायं फैव् खण्डं ट्वेल्व् औपमन्यवकन्त्वमात्मानमुपास इति भगवो राजन्निधि सुते जा आत्मा वैश्वानरोऽयन्त्वमात्मानमुपासे तस्मात्तव सुदं प्रसुदमासुदङ्कुले दृश्यदे अस्यन्नं पश्यदि प्रियमत्यन्नं पश्यदि प्रियं, प्रियं भवत्यस्य ब्रह्मवर्चसङ्कुलेय येदमेवमात्मानं वैश्वानरमुपास्ते नरमुपास्ते त्वेष आत्मन इति होवाच मूर्धाते व्यपतिष्यध्यन्मान्नागमिष्य इति अध्यायं फैव् खण्डं तर्टीन् अध होवाच सत्ययज्ञम् पौलुषिं प्राचीनयोग्यकन्त्वमात्मानमुपास इत्यादित्यमेव भगवो राजन्निधि होवाचैषवै विश्वरूप आत्मा वैश्वानरो यन्त्वमात्मानमुपास्ये तस्मात्तव बहुविश्वरूपं कुले दृश्यते प्रवृत्तोश्वतरीरथोदासीनिष्कोत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यदिप्रियं भवत्यस्य ब्रह्मवर्चसङ्कुलेयदमेवमात्मानं वैश्वानरमुपास्ते चक्षुष्ठे दधात्मन इति हो वाचान्धो भविष्यद्यन्मान्नागमिष्य इति अध्यायं फैव् खण्डं फोर्टीन् अध हो वाचेन्द्रद्युम्नं बाल्लवेयौ वैयाक्रपद्यकन्त्वमात्मानमुपास यदि वायुमेव भगवो राजन्निधि होवाचैष वै पृथग्वर्त्मात्मा वैश्वानरो यन्त्वमात्मानमुपास्ये तस्मात् त्वां पृथग् बलय आयन्ति पृथग्रधश्रणयो अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्म वर्चसङ्कुलेयेदमेवमात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्यद्यन्मानागमिष्य इति अध्यायं फैव् खण्डं फिफ्टीन् अध होवाच जनगं चार्कराक्षकन्त्वमात्मानमुपास इत्याकाश्यमेव भगवो राजन्निधि होवाचैष वै बहुल आत्मा वैश्वानरो हन्त्वमात्मानमुपास्ये तस्मात् त्वम् बहुलोऽसि प्रजया च धनेन च अस्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसङ्कुलेयदमेवमात्मानं वैश्वानरमुपास्ते सन्देहस्त्वेष आत्मन इति होवाच ेव्यशिर्यध्यन्मान्नागमिष्य इति अध्यायं फैव् कण्ठं सिक्स्टीन् अधहोवाच बुडिलमाश्वतराशौवैयाक्रपद्यकन्त्वमात्मानमुपास इत्यप एव भगवो राजन्निधिकोवाचैष वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्ये तस्मात्त्वगं रयिमान् पुष्टिमानसि अस्यन्नं पश्यसि प्रियमत्यन्नम् पश्यदि प्रियं भवत्यस्य ब्रह्म वर्चसङ्कुले येदमेवमात्मानं वैश्वानरमुपास्ते बस्तिस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभेत्स्यन्मान्नागमिष्य इति अध्यायं फैव् खण्डं सेवेन्टीन् अध होवाचोद्दालकमारुणि गौदमकन्त्वमात्मानमुपास इति पृथिवीमेव भगवो राजन्निधि होवाचैष वैप्रतिष्ठात्मा वाई वैश्वा नरो यन्त्वमात्मानमुपास्ये तस्मात्त्वं प्रतिष्ठितोऽसि प्रजयाज पशुभिश्च अस्यन्नं पश्यसि प्रियमत्यन्नं पश्यदिप्रियं भवत्यस्य ब्रह्मवर्चसङ्कुलेयेदमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेदावात्मन इति होवाच पादौतेव्यं लास्ये दायन्मान्नागमिष्य इति अध्यायं 5, खण्डम् 18, तान् होवाचैदे वै खलु पृथगिवे ममात्मानं वैश्वानरम् विद्वागुंसोन्नमद्ध यस्त्वेदमेवं विमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु बोधेषु सर्वेष्वात्मस्वन्नमत्ति तस् ्यः वा येदस्यात्मनो वैश्वानरस्य मूर्धैव सुतेच्छाश्चक्षुर्विश्वरूपः प्राणः पृथग् वर्मात्मा सन्देहो बहुलो बस्तिरेव रयिः पृथिव्येव पादाबुरयेव बर्हेर्हृदयं गार्हपत्यो मनोन्वा हर्यपचन आस्यमाहवनीयः अध्यायं फैव् खण्डं नैन्टीन् तद्यद्भक्तं प्रथममागच्छेत्तद्धोमि यगम् सयां प्रथमा मा हृदिं जुहुयात्ताञ्जुहुयात्प्राणाय स्वाहेदि प्राणस्तृप्यदि प्राणेतृप्यदि चक्षुस्तृप्यदि चक्षुषिस्तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यदिद्यौस्तृप्यदिवितृप्यन्ता यत्किञ्च द्यौश्चादित्यश्चाधितिष्टतस्तृप्यदि तस्यानुतृप्तिं तृप्यधिप्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेधि अध्यायं फैव् खण्डं ट्वेण्टी अधयान् द्वितीयाञ्जिहुयाताञ्जिहुयादव्या नाय स्वाहे दिव्यानस्तृप्यधि व्यानेतृप्यधिश्रोत्रन्तृप्यधिश्रोत्रे तृप्यधि चन्द्रमास्तृप्यधि चन्द्रमसि तृप्यधि दिशस्तृप्यन्ति दिक्षु तृप्यते तृप्यन्तेषु यत्किञ्च दिशश्च चन्द्रमाश्चाधितिष्ठन्ति तत्तृप्यधि तस्यानुतृप्तिं तृप्यधिप्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति अध्यायं फैव् खण्डं ट्वेण्टि वन् अधयान्तृदीयाञ्जुहुयात्ताञ्जुहुयादपानाय स्वाहेत्यपानस्तृप्यदि अपाने तृप्यदिवाक्तृप्यदिह्वाजितृप्यन्त्यामग्नेस्तृप्यत्यग्नौ तृप्यदिपृथिवी तृप्यदिपृथिव्यान्तृप्यन्त्यायत्किञ्च पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यधि तस्यानुतृप्तिं तृप्यधिप्रजया पशुभिरन्नाद्येन तेजसा ब्रह्म वर्चसेनेति अध्यायं फैव् खण्डं ट्वेन्टि अधयांच दुर्धुुतांजुहुया सनाय स्वाहेदि सनस्तृप्य सृप्य मन तृप्य मनसी तृप्य पर्जन्यृप्यर्जन्ये तृप्य विद्युत्तृप्यदिविद्युदितृप्यन्त्यायत्किञ्च विद्युच्च पर्जन्यश्चाधितिस्ततस्ततृप्यधि तस्यानुतृप्तिं तृप्यधिप्रजया पशुभिरन्नाद्य न तेजसा ब्रह्मवर्चसेनेति अध्यायं फैव् खण्डं ट्वेण्टि त्रि अधयां पञ्चमी जिहुयात्ताञ्जिहुयादुदानाय स्वाहेत्युदानस्तृप्यधि उदाने तृप्यदित्वक्तक्तृप्यदित्वजि तृप्यन्तां वायुस्तृप्यदि वायौ तृप्यत्याकाशस्तृप्यत्याकाशेत्तृप्यदि यत्किञ्च वायुश्चाकाशश्चाधितिष्टतस्तत्तृप्यधि तस्यानुतृप्तिन्तृप्यधिप्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति अध्यायं फैव् खण्डं ट्वेन्टि फोर् सय इदमविद्वानग्निहोत्रं जुहोदि यथाङ्गारानपोह्यभस्मनि जुहुयाता दृक्तस्याद अध य एतदेवं विद्वानग्निहोत्रं जुहोदितस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसुहुदं भवति तद्यदेशिकादूलमग्नौ प्रोदं प्रदूयेदैव गुंहास्य सर्वे पाप्मानः प्रदूयन्ते येतदेवं विद्वानग्निहोत्रञ्जुहोति तस्मादुहैवं विद्यपि चण्डालायोच्छिष्टम् प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतगुं स्यादिति तदेशश्लोकः यथेहक्षुधिताबालामादरं पर्युपासद एव गुं सर्वाणि भूतान्यग्निहोत्रमुपासद इत्यग्निहोत्रमुपासदत पञ्चमोऽध्यायः ओ